श्रीरङ्गनाथपादुकासहस्रं पद्धति ट्वेण्टित्रि शेषपद्धतिः अनुष्टु सृष्टाम्भोमा वनन्तेन नित्यं शेषसमाधिनाहं संभावयामि त्वामात्मानमिव पादुके शालिनी पद्मा भोगात्पादुके रङ्कभर्तुः पादस्पर्शाद्भोगमन्यं प्रपित्सोः शेषस्यैकां भूमिकामब्रवीत्वामाचार्याणामग्रनिर्यामुनेयः वसन्ततिलकं शेषत्वमम्बयदि संश्रयदि प्रकामम् त्वद्भूमिकां समधिगम्य भुजङ्गराजः त्वामेव भक्तिविनतैर्वहतां शिरोऽभिकाष्ठां गदं तदिह केशवपादरक्षे मा भूधिय मयि निषन्नपदस्य नित्यं विश्वम्भरस्य दिमत्वा। दत्से बलाभ्यधिकया मणिपादुके त्वं शेषात्मना वसुमतीं निजयैव मूर्त्या सत्तादृशा निजबलेन निरूढकीर्तिशेषस्तवैव वा परिणामविशेष एषः रामेण सत्यवचसा यदनन्यवाह्यां वोढुं पुरा वसुमतीं भवदीनियुक्ता शेषत्वसीमनियदां मणिपादरक्षे त्वामागमाकुलवधूमिव बालपुत्राः त्वद्रूपशेषशयितस्य परस्य पुंसः पादोपधान शयितामुपधानयन्ति मालिनि भरतशिरसि लग्नां पादुके दूरतस्त्वां स्वतनुमपि ववन्दे लक्ष्मणशेषभूतः किमिदमिह विचित्रं नित्ययुक्तस्य शेवे दशरथतनयः सन् रङ्गनाथस्वमेव भूयो भूयस्तिमिदचलिते यस्य सङ्कल्पसिन्धौ ब्रह्मेशानप्रभृदय इमे बुद्बुदत्वं भजन्ति तस्यानादेर्युगपरिणतौ योगनिद्रानुरूपम् क्रीडा तल्पं किमपि तनुते पादुके भूमिकान्या शिखरिणि अहीनात्मा रङ्गक्षितिरमणपादावनि सदा सदामिद्धं त्राणात्प्रतिधनिजसत्रत्वविभव अविद्यायामिन्या स्पृशसि पुनरेकाहपदवीं क्रदूनामाराध्या क्रतुरपि च सर्वस्त्वमसि नः आर्य बहुमुखभोगसमेतैर्निर्मुक्तदया विशुद्धिमापन्नैः शेषात्मिकापदावनिषेव्यसे शेषभूतैस्त्वम् इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे शेषपद्धतिस्त्रयोविंशी ओ